नारायणीयं दशकं 62, टु मीटर् शिखरिणि कदाचित् गोपालान्विहितमखसंभार निरीक्ष्यत्वं शौरे मखवमदमुध्वंसितुमनाः विजानन्नप्येदान्विनयमृदु नन्दादिपशुपानपृच्छको वायं जनकभवदामुद्यम इति बभाषे नन्दस्त्वां सुतननुविधेयो मखवदो मखो वर्षे वर्षे सुख यदि स वर्षेण पृथिवीं नृणां वर्षा निखिलमुपजीव्यं महितले विशेषादस्माकं तृणसलिलजीवाहि पशवः इति श्रुत्वा वाचं पितुरयि भवानाः सरसं दिगे तन्नो सत्यं मखवजनिता hmm. वृष्टिरिति यत् अदृष्टं जीवानाम् सृजति खलु वृष्टिम् समुचिताम् महारण्ये वृक्षा किमिव बलिमिन्द्राय ददते इदं तावत् सत्यम् यदि ह पशवो नः कुलधनं तदा जीव्यायासौ बलिरचलभर्त्रे समुचितः सुरेभ्योऽप्युत्कृष्टा ननु धरणि देवाः क्षितितले ततस्तेऽप्याराध्या इति जगदित्तत्वं निजजनान् भवद्वाजं श्रुत्वा बहुमदियुतास्तेऽपि पशुपाद्विजेन्द्रनर्चन्तो बलिमदरुच्चैः क्षितिभृते व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुधास्त्वमादशैलात्मा बलिमखिलमाभीरपुरतः अवोचश्चैवं तान् किमिह वितथं मे निगदितं गिरीन्द्रो नन्वेषु स्वबलिमुपभुङ्ेष्वपुषा अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं समस्ता नित्युक्ता जकृषुरखिला गोकुलजुषः परिप्रीता याधा खलु भवदुपेदा व्रजजुषो व्रजं यावत् विभंगं निशमयन। भवन्तं जानन्नाप्यधिकरजसाक्रान्तहृदयो नसेहे सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि मनुष्यत्वं व्यादो मधुभिदपि देवेष्वविनयं विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा प्रदश्च ध्वं शिष्ये पशुपहतकस्य श्रियमिति प्रवृत्तस्त्वां जेतुं स किलमखवा दुर्मदनिधिः त्वदावासं हन्तुं प्रलय जलदानंबरभुवि ्यैरन्तर्दहनमरुदाद्यैर्विहसितो भवन्माया नैव त्रिभुवनपदे मोहयति कम् सुरेन्द्रक्रुद्धश्चे द्विजगरुणया शैलकृपयाप्यनातङ्गोऽस्माकं नियत इति विश्वास्य पशुपान् किम्नायादो नायादो गिरिभिदि सञ्चिन्त्य निवसन्मरुद्गेहाधीशप्रणुद मुरवैरिन् मम गदान् सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द